कृष्ण कृष्णयजुर्वेदब्राह्मणं प्रश्नं तु हरिः ॐ लोकोऽसि स्वर्गोऽसि अनन्दोऽस्य पारोऽसि अक्षितोऽस्य क्षय्योऽसि तपसप्रतिष्ठा द्वितीयमन्दः विश्वय्यक्षौ विश्वं भूधौ विश्वगुं सुभूधम् विश्वस्य भर्ता विश्वस्य जन इदा तन्त्वोपदधे कामदुखमक्षिदं प्रजापदिस्त्वा साधयदो तया देवदयाङ्गिरस्वध्रुवासीद तपोऽसि लोके श्रिदम् त्वदीयमन्तः विश्वयक्षं विश्वम्भूतं विश्वगुं सुभूदं विश्वस्य भर्तृविश्वस्य जनयधृ तत्वोपदधे कामदुःखमक्षिदं प्रजापदि स्त्वा साधयतु तया देवदयाङ्गिरस्वध्रुवासीद तेजोऽसि तपसि समुद्रस्य प्रतिष्ठा त्वदीयमन्दः विश्वयक्ष विश्वं भूदं विश्वस्य भर्दृ विश्वस्य जनयधृ तत्वोपदद्धे कामदुःखमक्षितं प्रजापतिस्त्वा साधयतु तया देवदयाङ्गिरस्वध्रुवासीद समुद्रोऽसि त्यजसि श्रुदः अपां प्रतिष्ठा त्वयीदमन्दः विश्वयक्षं विश्वम्भोधं विश्वगुं सुबोधं विश्वस्य भर्ता विश्वस्य जनयिदा तं तोपदधे कामदुःखमक्षिदं प्रजापदि तया देवदयाङ्गिरस्वध्रुवासीद आपस्तः समुद्रे श्रुताः पृथिव्या प्रदिष्टा युष्मासु युदमन्तः विश्वं यक्षम् विश्वम्भोदम् विश्वगुम् सुभूतम् विश्वस्य भर्त्रयो विश्वस्य जनयित्र्यः ताव उपदर्धे कामदुःखा अक्षिदाः प्रजापतिस्त्वा साधयदो तया देवतया गिरस्वध्रुवासीद पृथिव्यस्य शुश्रुता अग्ने प्रतिष्ठा त्वयि दमन्तः विश्वयक्षं विश्वं भोधौ विश्वगुं सुभोधं विश्वस्य भर्त्री विश्वस्य जनयित्री कां त्वोपदध्ये कामदुः कामक्षिधां प्रजापतिस्त्वा साधयदो तया देवतया अग्निरसि पृथिव्या विसृतः अन्तरिक्षस्य प्रतिष्ठा त्व ईदमन्दः विश्वयक्षं विश्वं भूदं विश्वगुं सुभूधं विश्वस्य भर्ता विश्वस्य जनयिदा तं त्वोपददे कामदुःखमक्षितं प्रजापतिस्त्वा साधयतु तया देवदयाङ्गिरस्वध्रुवासीद अन्तरिक्षमस्य अग्नौ श्रुतं वायो प्रतिष्ठा त्वयीयमन्तः विश्वयक्षं विश्वं भूदं विश्वगुं सुभोधं विश्वस्य भर्तृ विश्वस्य जनयदृ तन्त्वोपदधे कामदुःखमक्षीतम् प्रजापदि स्त्वा साधयतु तया देवतया गिरस्वध्रुवासीद मायुरस्यन्तरिक्षे श्रुतः दिवप्रतिष्ठा त्वयीद मन्दः विश्वयक्षम् विश्वम्भूतम् विश्वगुंसुभूतम् विश्वस्य भर्ता विश्वस्य जनयिता तन्त्वोपदथे कामदुःखमक्षिदम् प्रजापतिस्त्वा साधयदो तया देवतया गिरस्वध्रुवासीद ज्यौरशिवायौ श्रुदा आदित्यस्य प्रदिष्ठा त्वयिदमन्दः विश्वं यक्षं विश्वम् बोधं विश्वगुं सुबोधं विश्वस्य भर्तृ विश्वस्य जनयित्री त्वोपदधे कामदुःखमक्षिताम् प्रजापतिस्त्वा सदयतु तया देवतया गिरस्वध्रुवासीद आदित्योऽसि विश्रुतः चन्द्रमसप्रतिष्ठा त्वयिदमन्तः विश्वं यक्षं विश्वं भूदं विश्वगुं सुभूदं विश्वस्य भर्ता विश्वस्य जनयिता ोपदधे कामदुःखमक्षितं प्रजापतिस्त्वा साधयदो तया देवतया गिरस्वध्रुवासीद चन्द्रमा अस्यादित्ये श्रुदः नक्षत्राणां प्रतिष्ठा त्वयीदमन्तः विश्वं यक्षं विश्वं भूदं विश्वगुं सुभूदं विश्वस्य भर्ता विश्वस्य जनयिता न्तोपदधे कामदुःखमक्षिदम् प्रजापदिस्त्वा साधयदु तया देवतया दे गिरस्वध्रुवासीद नक्षत्राणि स्तचन्द्रमद्श्रुतानि संवत्सरस्य प्रतिष्ठा युष्मासु इदमन्तः विश्वं यक्षं विश्वं भूतं विश्वगुं सुभूतं विश्वस्य भर्तृणि विश्वस्य जनये धृणी तानिव उपदधे कामधुखान्यक्षितानि प्रजापतिस्त्वा सदयदो तया देवतयाङ्गिरस्वध्रुवासीद संवत्सरोऽसि नक्षत्रेषु श्रुतः ऋदूनां प्रतिष्ठा त्वयीद मन्दः विश्वं यक्षं विश्वम्भूतं विश्वगुं सुभूदं विश्वस्य भर्ता विश्वस्य जनयिदा तं त्वोपदधे कामदुःखमक्षिदम् प्रजापदि स्वा साधयतु तया देवदयाङ्गिरस्वध्रुवासीद मासानां प्रदिष्ठा युष्मासु इदमन्तः विश्वं यक्षं विश्वं भूतौ विश्वगुं सुबोधम् विश्वस्य भर्दारो विश्वस्य जनयितारः तान्व उपदधे पाम दुःखा नक्षितान् प्रजापदि तया देव दयाङ्गिरस्वध्रुवासीद मासास्तर्तु शुश्रुताः अर्धमासानां प्रदिष्टा युष्मासु युदमन्तः विश्वं यक्षं विश्वं भूतं विश्वगुंसुभूतं विश्वस्य भर्दारो विश्वस्य जनयितारः तान् वा उपदधे कामदुःखनक्षितान् प्रजापतिस्त्वा साधयदु तया देवतया अर्धमासास्थ मासु श्रुताः अहो रात्रयो प्रतिष्ठायुष्मासु इदमन्तः विश्वम् यक्षम् विश्वम्भूतम् विश्वगुंसुभूतम् विश्वस्य भर्दारो विश्वस्य जनयिदारः कान् व उपदधे कामदुःखानक्षिदान प्रजापदि स्वा साधयदो तया देवदयाङ्गिरस्वध्रुवासीद अहोरात्रे स्तोर्धमस्य शुश्रुदे भूतस्य प्रदिष्टे भव्यस्य प्रदिष्टे युवयोरिदमन्थाः mm. विश्वयक्षम् विश्वम्भूतं विश्वगुं सुभूतम् विश्वस्य भर्त्र्यौ विश्वस्य जनयित्र्यौ मुपदधे कामदुःखे अक्षिदे प्रजापदिस्त्वा साधयतु तया देवतया गिरस्वध्रुवासीद पौर्णमास्यष्टकामावास्या अन्नादास्तान्न दुःखो युष्मासु युतमन्तः विश्वयक्षं विश्वं भूदं विश्वभुं सुभूतम् विश्वस्य भर्द्रियो विश्वस्य जनयित्रिया ताव उपदधे कामदुःखा अक्षिताः प्रजापदिस्त्वा साधयद दे तया देवदयाङ्गिरस्वध्रुवासीद राडसि बृहदी श्रीरस्यीन्द्रपत्नी धर्मपत्नी विश्वं विश्वम्भूतमनुप्रभूता स्वयीदमन्दः विश्वं यक्षं विश्वं भूतं विश्वभुं सुभूतं विश्वस्य भर्त्री विश्वस्य जनयित्री तां त्वोपदध्ये कामदुःखामक्षिदां प्रजापदि स्त्वा साधयतु तया देवदयाङ्गिरस्वध्रुवासीद को जोसि सहोऽसि बलमसिभ्राजोऽसि देवानां दामामृतम् अमर्त्यस्तपोजाः त्वयि दमन्तः विश्वं यक्षं विश्वं भोधं विश्वगुं सुभोधं विश्वस्य भर्ता विश्वस्य जनयिता तन्त्वोपदधे कामदुःखमक्षिदं प्रजापदित्वा साधयदो तया देवदयाङ्गिरस्वध्रुवासीद त्वमग्ने असुरो महो दिवः त्वगुं शर्धो त्वं वादैररुणैर्यासि शृङ्गय त्वं पूषा विधध पासिनुत्मनाः देवा देवेषुश्रयध्वं प्रथमा द्वितीयेषुश्रयध्वं द्वितीयास्तृदीयेषुश्रयध्वं तृतीयाश्चतुर्देशुश्रयध्वं चतुर्धाः पञ्चमेषुश्रयध्वं पञ्चमा षष्ठे शुश्रयध्वं षष्ठा सप्तमे शुश्रयध्वम् सप्तमा अष्टमे शुश्रयध्वम् अष्टम नवमे शुश्रयध्वं नवम दशमे शुश्रयध्वं दशम एकादशे शुश्रयध्वं एकादश द्वादशे शुश्रयध्वं द्वादशास्त्र योदशे शुश्रयध्वं त्रयोदशश्चदशे शुश्रयध्वम् चतुर्दश पञ्चदश शुश्रयध्वं पञ्चदश षोडश शुश्रयध्वं षोडश सप्तदश शुश्रयध्वं सप्तदश अष्टादश शुश्रयध्वम् अष्टादश एकान्न विगुंसे शुश्रयध्वम् एकान्न विगुंशायेघविगुंशे शुश्रयध्वं ये गविगुंशा द्वाविगुंसे शुश्रयध्वं द्वाविगुंशास्त्रयो विगुंसे शुश्रयध्वं त्रयो विगुंश्याश्चतुर्विगुंसे शुश्रयध्वं चतुर्विगुंशाः पञ्चविगुंसे शुश्रयध्वं पञ्चविगुंशे षड् विगुंसे शुश्रयध्वम् षड्विगुंशा सप्त विगुंशे शुश्रयध्वम् सप्त विगुंश्या अष्टाविगुंशे शुश्रयध्वम् अष्टाव्यगुंशा एकान्नत्रिगुंसे शुश्रयध्वम् एकान्न त्रिगुंशास्त्रिगुंशे शुश्रयध्वं त्रिगुंशा एकत्रिगुंशे शुश्रयध्वम् ये गृगुंशा द्वा त्रिगुंशेषुश्रयध्वं द्वात्रिगुंशास्त्रयस्त्रिगुंशेषुश्रयध्वं देवास्त्रिरेकादशा स्त्रिस्त्रयस्त्रिगुंशाः उत्तरे भवद उत्तरवर्तमान उत्तर नः यत्काम इदं जुहोमि तन्मे समृद्ध्यताम् वयगुश्यामपदयोरयीणां भो भु भुवः स्व स्वाहा अग्नाविष्णु सजोषस इमा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेऽभिरागदं राज्ञी विराज्ञी सम्राज्ञी स्वराज्ञी अर्चिशोचिः तपो अग्निसोमो बृहस्पतिः विश्वे देवा भुवनस्य गोपाः ते सर्वे सङ्गत्य इदं मे प्रावदा वचः वयघश्यामपदयो रयीणां भूर्भुवः स्व स्वाहा अन्नपदेऽन्नस्य नो देहि अनमीवस्य सुष्मिणः प्रदातारान्तरिषः ऊर्जं नो हिद्युपदे च अग्ने पृथिवीपदे सोमविरुधां पदे तुष्टः सोम समिधां पदे, पदे, पदे मित्र सत्यानां पदे वरुणधर्माणां पदे मरुदोगणानां पदयः रुद्रपशूनां पदे इन्द्रौजसां पदे, पदे बृहस्पदे ब्रह्मणस्पदे आरुचा रोचे हग्स्वयं रुचा रुरुचे रोचमानः अदित्यादस्वराभरेह तस्मिन् योनौ प्रजन्नौ प्रजायेय वयग्श्यामपदयोरयीणां भो भुव स्व स्वाहा सप्त ते अग्ने समिधसप्तजिह्वाः सप्तर्षयः सप्तधामप्रियाणि सप्तहोत्रा अनुविद्वान् सप्त योनिरावृण कृतेन प्राचीदिक अग्निर्देवता अग्निगुं सदिशां देवं देवता नामृच्छतु यो मैतस्यै दिश्योऽभिधासति दक्षिणादिक इन्द्रो देवताः इन्द्रगुं स देवं देवतानां मृच्छद यो मयिदस्यै दिश्योऽभि दास्यति प्रतीचीदिक सोमो देवता आह सोमगुं स देवं देवतानां मृच्छदो यो मयिदस्यै दिशोऽभि उदीचीदिक मित्रावरुणौ देवता मित्रावरुणौ स दिशां देवौ देवतानामृच्छतु यो मै दस्यै दिश्योभिदासदि ऊर्ध्वाधिक बृहस्पतिर्देवता बृहस्पतिगुं स दिशां देवं देवतानामृच्छतु यो मै दस्यै दिश्योऽभिदासदि इयन्द्रिक अदितिर्देवता अदिगुं दि स दिशां देवीं देवता नामृच्छतु यो मै दस्यै दिशोऽभिधासदि पुरुषोदिक पुरुषो मे कामान् समर्धयतु अन्धो जागृभिप्राण असावेहि बधिर आक्रन्दयिदरपान असावेहि उषसमुषसमशीय अहमसो ज्योतिरशीय अहमसो पोषीय वयद्विश्यामपदयोरयीणां यदु चिदन्ते अग्ने यत ऊ नै यदु देदि रिक्तन् आदित्यास्तदङ्गिरसश्चिन्वन्तु विश्वे ते देवाश्चिदिमा पूरयन्तु चिदश्चासि सञ्चितश्चास्यग्ने ये दावागुंश्चासि भूयागुश्चास्य अग्ने लोकं प्रणच्छिद्रं प्रण अथोसि दशि वा त्वम् बृहस्पतिः अस्मिन् यो तया देवतयाङ्गिरस्वध्रुवासीद ता अस्य सुददोहसः कृष्णयः जन्मं देवानां विशः कृष्वा रोचने दिवः तया देवतया गिरस्वध्रुवासीद अग्ने देवागम् इह वह जज्ञानो वृक्पदबर्हिषे असि होता न इड्यः अगन्ममः मनसा यविष्ठम् यो दिदाय समिद्धस्वे दुरोणे चित्रभानू रोदसी अन्धरु स्वाहृदं विश्वदः प्रत्यञ्जम् मेधाकारं विधधस्य प्रसाधनम् अग्निगुम्भोदारम् परिभूतमं मदिम् त्वामर्भस्य भविष्यत् समानमिद त्वां महो वृणते नरो नान्यं त्वद मनुष्वत्वाग्नि धीमहि मनुष्वत् संमहि धी अग्ने मनुष्वदङ्गिरः देवादेवायते यज अग्ने हि वाजिर्णं विषे ददाति विश्वचरुषणिः अग्निरायेष्वाभुवम् सप्रेदो यादिवार्यं यिषग्स्तो दृभ्य आभर पृष्ठ प्रिष्ट दिवि पृष्ठो अग्निपृथिव्या पृष्ठो विश्वा वोषधिरा विवेश वैश्वानरसहसा पृष्ठो अग्निः सनो नो दिवा अय्यं वाव यपवदे सोऽग्निर्नाचिकेतः स यत् प्राङ्क्पवदे तदस्य शिरः अध यद्दक्षिण स दक्षिणः पक्षः अध यत्प्रत्यग तत् पुच्छं यदुदङ्ग स उत्तरः पक्षः समञ्चनं च प्रसारणं च अधो सम्पदेवास्य सा सगुंह अस्मै स कामपद्यदे यत्कामो यजदे योऽग्निं नाचिकेदं चिनुदे य उ चैनमेवं वेद यो, यो ह वा अग्नेर्नाचिकेदस्यायतनं प्रतिष्ठां वेद आयतनवान् भवति गच्छति प्रतिष्ठा हिरण्यं वा अग्नेर्नाचिकेदस्यायतनं प्रतिष्ठा य एवं वेद आयतनवान् भवति गच्छति प्रतिष्ठां यो ह वा अग्नेर्नाचिकेदस्य शरीरं वेद स येव स्वर्गल्लोकमेधि हिरण्यं वा, स्वर्ग वा अग्निर्नाचिकेदस्य शरीरं य एवं वेद स शरीर एव स्वर्गल्लोकमेधि अधो यथा रुग्म उत्तप्तो भाह्याद एवमेव सतेजसा यशसा अस्मिघिलोके मुष्मिघिश्च भादि उरवोह वैनामैदे लोकाः ये वरेणादित्यम् अदखैदे वरीयार्गुंसो लोकाः ये परेणादित्यम् अन्धवन्धगुंह वा ये षक्षय्यल्लोकं जयति यो वरेणादित्यम् अध हैषोऽनन्दमपारमक्षय्यल्लोगं जयधि यः परेणादित्यम् अनन्दगुंहवा अपारमक्षय्यल्लोगं जयधि योऽग्निं नाचिकेदं चिनुदे य उचैनमेवं अधो यधारधे तिष्ठन् पक्षसी पर्या वर्तमाने प्रत्यपेक्षदे एवमहोरात्रे प्रत्यपेक्षते न स्याहोरात्रे लोकमाप्नुदः योऽग्निं न चिनुदे य उचैनमेवं उशनः वाजश्रवस सर्ववेदसं दद्धौ तस्य नचिकेता नाम पुत्र आस त्वगुंखकुमारगुंसन्तं दक्षिणा सुनीयमाना सु श्रद्धा सहोवाच तदकस्मै मां दास्यसिति द्वितीयं तृतीयं तगुंह परिद उवाच मृत्यवे त्वा ददामिति तगुंह स्मोद्धिदं वागभिवदति गौतमकुमारमिति सखोवाच परेहि मृत्यो गृहान् मृत्यवेयित्वा दामिति तं वै प्रवसन्तं गन्दासीदिहोवाच तस्य स्म तिस्रो रात्रीरनाश्वान्गृहे वसताद स यदित्वा पृच्छेद कुमारकदिरात्री रवात्सीरितिस्र इति प्रतिब्रूदाद किं प्रथमागुम् रात्रिमाश्ना इति प्रजान्त इति किं द्वितीयामिति पशुगुस्त इति किं तृतीयामिति साधुकृत्यान्त इति तं वै प्रवसन्तं जगाम तस्य कतिस्रोरात्रीरनाश्वान गृह उवास तमागत्य पप्रच कुमार कतिरात्रिरवात्सीरिति तिस्र इति प्रत्योवाच किं प्रथमागं रात्रिमास्ना इति प्रजान्त इति किं द्विदीयामिति पश्यो इति किं तृतीयामिति साधुकृत्यान्त इति नमस्ते अस्तु भगव इति होवाच वरं वृणेष्वेदि इतरमेव जीवन्नयानीदि द्विदियां वृणीष्वेति जिष्ठापूर्तयोर्मेक्षिदिम् ब्रूहीति होवाच तस्मै हैदमग्निम् नाचिकेतमुवाच तदो वै तस्येष्टापूर्ते न क्षीयेते न्येष्ठापूर्ते क्षीयते योऽग्निं नाचिकेतं चिनुदे य उचैनमेवं वेद हृदियं वृणीष्वेदि पुनर्मृत्योर्मे पजिधिं ब्रूहिदि उवाच तस्मै फैदमग्निं तदो वैसो अपपुनर्मृत्युं जयदि योऽग्निं न जिगेतं चिनुदे य उचैनमेवं वेद प्रजापतिर्वै प्रजाकामस्तपोतप्यद स हिरण्यमुदास्यद तदग्नौ प्रास्यद तदस्मै नाच्छदयद तद्विधीयं प्रास्यद तदस्मै नैवाच्छदयद तद् हृदीयं प्रास्यद तदस्मै नैवाच्छदयद तदात्मन्नेव हृदयेऽग्नौ वैश्वनरे प्रास्यद तदस्मा अच्छदयद तस्मधिरण्यं कनिष्ठं दधानां भुञ्जत्प्रियतमं हृदय जगुं हि स वैतमेव नाविन्दद यस्मै तां दक्षिणामनेष्यद ता गृस्वायैव हस्ताय दक्षिणाय नयद तां प्रत्यगृह्णाद दक्षायत्वा सो दक्षद दक्षिणां प्रतिगृह्य दक्षदेह वै दक्षिणां प्रदिगृह्य य एवं वेद ये वे दद्धस्म वै तद्विद्वागुंसो वाजश्रवसा गोतमाः अप्यनू देष्या दक्षिणां प्रतिगृह्णन्ति उभयेन वयं दक्षिष्यामः एव दक्षिणां प्रदिगृह्येति ते दक्षन्तदक्षिणां प्रदिगृह्य दक्षदेह वै दक्षिणां प्रदिगृह्य य एवं वेद प्रहान्यं व्लीणादि तगुङ्खदमेके पशुबन्ध एवोत्तरवेद्यां चिन्वदे उत्तरवेदि संविदकेशोऽग्निरिदि वदन्तः तन्न कुर्याद यदमग्निं कामेन व्यर्थयेद स एनं कामेन व्यरुद्धः कामेन सौम्ये वा वैन मध्वरे चिन्वीद यत्र वा भूयिष्ठ वा हुतयो पुयेरन् यदमग्निं कामेन समर्धयदि सयेनम् कामेन समृद्धः कामेन समर्धयदि अध हैनं पुरुषयः उत्तरवेद्यामेव सत्रियमचिन्वद तदो वै दे प्रजाम् अभिस्वर्गल्लोकमजयन् विन्दद एव प्रजाम् अभिस्वर्गल्लोगं जयधि योऽग्निं नाचिकेदं चिनुदे य उचैनमेवं वेद अध हैनं वायोरुद्धिकामः यथान्युक्तमेवोपदधे ततो वैस यदा मृद्धिमार्ध्नोद यदा मृद्धिमृध्नोदि या मिदंवायुर्वृद्धः योऽग्निं चिनुदे य उचैनमेवं वेद अथ हैनं गो पाङ्कृमेव चिक्ये पञ्चपुरस्ताद पञ्चदक्षिणदः पञ्चपश्चाद पञ्चोत्तरदः यकं मध्ये तदो वैस वैसहस्रं पश्यन् प्राप्नोद प्रसहस्रम् पशूनाचिके चिदे य उच्चमे वेद अथ कईनम प्रजापतिर्ज्य कामो यशस्काजन काम तिस्रो सप्तुस्ता दक्षिणत सप्त ऊ एकाम् मध्ये तदो वै स प्र यशो जैष्ठ्यमाप्नोद यदां प्रजातिं प्राजायद यामिदं प्रजा प्रजायन्ते प्रजा तृवृद्वैज्यैष्ठ्यम् मादापिदा पुत्रः ृत् प्रजननम् उपस्थो यो निर्मध्यमा प्र यस्यो ज्यैष्ठ्यमाप्नोति प्रजायते यामिदं प्रजा प्रजायन्ते योऽग्निम्नाचिगेदं चिनुदे य उचैनमेवं वेद अथ कैनमिन्द्रो जैष्ठ्यकामः ऊर्ध्वा तदो वै सज्यैष्ठ्यमगच्छद जैष्ठ्यं योऽग्निं नाजिकेदं जिनुदे य उचैनमेवं वेद अध हैनमसावादित्यस्वर्गकामः प्राजीरेवोपदधे तदो वैसोऽभिस्वर्गं लोकमजयद अभिस्वर्गं लोगं लोकम जयधि योऽग्निं जिनुदे य उचैनमेवं वेद स यदीच्छेद तेजस्वी यशस्वी ब्रह्मवर्चसी स्यामिति प्राहो दुर्धिष्ण्या दुःसर्पेद येयं प्रागाद् यशस्वती सा तेजसा यशसा ब्रह्मवर्चसेनेति तेजस्वेव यशस्वी ब्रह्मवर्चसी भवति अथ यदि चेद भूयिष्ठं मे श्रधीध्रन् भूयिष्ठा दक्षिणा नये युरिदि दक्षिणा सुनीयमाना सुप्राच्येहि प्राच्येहीति प्राच्ये प्राची जुषाणा स्रुवेणो भूयिष्ठम्य श्रदधीरन् भूयिष्ठा दक्षिणा नये युरिति दक्षिणासु नीयमानासु प्राच्येहि प्राच्येहीति प्राची तुषाणा प्राच्ये वेत्वाज्यस्य स्वाहेति स्रुवेणोपहत्या हवनीये वास्मै भूयिष्ठमेवास्मै श्रद्दधदे भूयिष्ठदक्षिणानयन्ति पुरीशमुपधाय चिदि प्रोक्तिभिरभिमृश्य प्रणीयोप समाथाया च दस्र यदा आहुतीर्जुहोधि त्वमग्ने रुद्र इति शतरुद्रियस्य अग्ना विष्णो इति वसोद्धारायाः अन्नवाद इत्यन्नहोमः सप्तदे अग्ने समिध सप्तजिह्वा इति विश्वप्रीहि यां प्रथमामिष्टकामुपदधाति इमं तया लोकमभिजयधि अधोया अस्मिन् लोके देवताः तासा गुंसायुज्यगुं सलोकदामाप्नोति यां द्वितीयामुपदधाति अन्तरिक्षलोकं तयाभिजयधि अधोया अन्तरिक्षलोके देवताः तासा गुंसायुज्यगुंसलोकदामाप्नोति ृदीया मुप अमु तया लोकमिज अधोया अमुस्मोके देतागुम सलोकदानोदी अधोया अमूतरा अषादशा उरवस् वरीयागुमसोका तरज कामचरोह वा अस्यो ऋषु च शरत्पुच्छम् मासा कर्मकाराः अहोरात्रे शदरुद्रीयम् पर्जन्यो वसोर्धारा यदा वै पर्जन्यसुवृष्ठं पृष्ट्वा प्रजाभ्य सर्वान् कामान् सम्पूरयदि एवमेव स तस्य सर्वान् कामान् सम्पूरयति योग्निम् नाजिकेदं चिनुते च उचैनमेवं वेद संवत्सरो वा अग्निर्नाचिकेदः तस्य वसन्तः शिरः ग्रीष्मो दक्षिणः पक्षः परिषापुच्छम् <idée> े मन्दो मध्यं पूर्वपक्षाचितयः अपरपक्षा पुरीषम् अहोरात्राणीष्टपः यशवसोऽग्निरग्निमय्यः पुनर्नवः अग्निमय्यो ह वै पुनर्नवो भूत्वा स्वर्गलोकमेदि आदित्यस्य सायुज्यं योऽग्निं चिनुद य उचैनमेवं वेद हरिः ॐ